अथ चतुर्विंशः सर्गः तम् समीक्ष्य व्यवसितम् पितुर्निर्देशपालने कौसल्याबाष्पसंवृद्धावचो धर्मिष्ठमब्रवीत् अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियम् वदः मयि जातो दशरथात् कथमुञ्चेदवर्तयेत् यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते कथम् स रामो वने मूलफलान्ययम् क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् गुणवान्दयितो राज्ञः काकुत्स्थो यद्विवास्यते बलवान् लोके कृतान्तः सर्वमादिशन् लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि अयम् दर्शनमारुतः विलापदुःखसमिधो रुदिता श्रुहुताहुतिः चिन्ता बाष्पमहाधूमस्तवागमनचिन्तजः दर्शयत्वाधिकम् पुत्र निःश्वासायाससम्भवः त्वया विहीनामिह माम् शोकाग्निरतुलो महान् प्रदक्ष्यते यथा कक्ष्यम् चित्रभानुर्हिमात्यये कथम् हिधेनुस्वम् वत्सम् गच्छन्तमनुगच्छति अहम् त्वानुगमिष्यामि यत्र वत्सगमिष्यसि यथा निगदितम् मात्रा तद्वाक्यम् पुरुषर्षभः श्रुत्वा रामोऽब्रवीद्वाक्यम् मातरं भृषदुःखिता कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते भवत्या परित्यक्तो न नूनम् भर्तुः किल परित्यागो नृशम् सः केवलम् स्त्रियाः स भवत्या कर्तव्यो मनसापि विगर्हितः यावज्जीवति काकुत्स्थः पिता मे जगदीपतिः शुश्रूषा क्रियताम् तावत्स हि धर्मः सनातनः कौसल्या शुभदर्शना तथेर्त्युवाच सुप्रीता राममक्लिष्टकारिणम् एवमुक्तस्तु वचनम् रामो धर्मभृताम्बरः भूयस्तामब्रवीद्वाक्यम् मातरम् भृशदुःखिता मया चैव भवत्या च कर्तव्यम् वचनम् पितुः राजा भर्ता गुरुश्रेष्ठः सर्वेषामीश्वरः प्रभुः इमानि तुमहारण्ये विहृत्य वर्षाणि परमप्रीत्या स्थास्यामि एवमुक्ता प्रियम् पुत्रम् बाष्पूर्णानना उवाच परमार्ता तु कौसल्या सुतवत्सला आसाम् रामसपत्नीनाम् वस्तुम् अध्ययनमे क्षमम् नय मामपि काकुत्स्थवनम् वन्याम् मृगीमिव यदि ते गमने कृता पितुरपेक्षया ताम् तथा रुदतीम् रामो रुदं वचनमब्रवीत जीवन्त्या स्त्रिया भर्ता दैवतम् प्रभुरेव भवत्या मम चैवाद्य राजा प्रभवति प्रभुः न ह्यनाथा वयम् राज्ञा लोकनाथेन धीमता भरतश्चापि धर्मात्मा सर्वभूतप्रियम् वदः भवतीमनुवर्तेत स हि सदा यथा मयि निष्क्रान्ते पुत्रशोकेन पार्थिवः श्रमम् नावाप्नुयात् किञ्चिदप्रमत्ता तथा कुरु दारुणश्चाप्ययम् शोको यथेन विनाशयेत् प्राज्ञो वृद्धस्य सततम् हितं चरसमाहिता व्रतोपवासनिरता यानारी परमोत्तमा भर्तारम् नानुवर्तेत सा च पापगतिर्भवेत् भर्तुःशुश्रूषयानारी लभते स्वर्गमुत्तमम् अपि यानिर्नमस्कारा निवृत्ता देवपूजनात् शुश्रूषावे गुरीत भर्त प्रियताश धर्म स्त्रिया नित्यो वेदे लोके श्रुता स्मृत अग्निकार्युदानोच पूज्यास्ते मकते देवी ब्राह्मणाशताल प्रतीक्षस्व मगमनकांक्षिणी नियता नियता हा प्राप्स्यसे परमम् कामम् मयि पर्यागते सति यदि धर्मभृताम् श्रेष्ठो धारयिष्यति जीवितम् एवमुक्ता तु रामेण बाष्पर्याकुलेक्षणा कौसल्या पुत्रशोकार्ता रामम् वचनमब्रवीत् गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रका विनिवर्तयितुम् वीरनूनम् कालो गच्छ पुत्रत्वमेकाग्रो भद्रम् तेऽस्तु सदा विभो पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा प्रत्यागते महाभागे कृतार्थे चरितव्रते पितुरारण्यताम् प्राप्ते स्वपिष्ये परमं सुखम् कृताम् तस्य गतिः पुत्रदुर्विभाव्या सदा भुवि यस्त्वाम् सञ्चोदयति मे वच आविध्य राघवा गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः नन्दयिष्यसि माम् पुत्रसाम् नाश्लक्ष्णेण चारुणा अपीदानीम् स कालस्याद्वनात् प्रत्यागतम् पुनः यत्त्वाम् पुत्रकपश्येयम् जटावल्कलधारिणम् तथा हि रामम् वनवासनिश्चितम् परमेण चेतसा उवाच रा शुभलक्षण वचो बभू वच स्वस्तमा कािणी इशे श्रीमद्मा आदि का्य अयोध्या कांडे